सौन्दर्यलहरि शिवशक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न देवं देवो न खलु कुशलः स्पन्दितुमपि अतस्त्वाम् आराध्यां हरिहरविरिञ्चादिभिरपि प्रणन्तुं स्तोतुं वा कथम् अकृतपुण्यः प्रभवति